एकोनविंशोऽध्यायः श्रीकृष्ण उवाच कस्यचित्वथ कालस्य पुनरेव महातपाः मगधेषूपचक्राम भगवाँश्चण्डकौशिकः तस्यागमनसंहृष्टः सामात्यः सपुरःसरः सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः प्रतिगृह्य च ताम् पूजाम् पार्थिवाद्भगवान् ऋषिः उवाच मागधम् राजन् प्रहृष्टेनान्तरात्मना सर्वमेतन्मया ज्ञातम् राजन् दिव्येन चक्षुषा पुत्रस्तु शृणुराजेन्द्र यादृशोऽयम् भविष्यति अस्य रूपम् च सत्त्वम् च समुदितः पुत्रस्तव न संशयः प्रापयिष्यति विक्रमेण समन्वितः अस्य वीर्यवतो वीर्यम् नानुयास्यन्ति पार्थिवाः पततो वैनते यस्य गतिमन्ये यथा खगाः विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते नरुजम् जनयिष्यन्ति गिरेरिव नदीरयाः सर्वमूर्धाभिषिक्तानामेष मूर्ध्ज्वलिष्यति प्रभाहरोऽयम् सर्वेषाम् ज्योतिषामिव भास्करः येनमासाद्य राजानः समृद्धबलवाहनाः विनाशमुपयास्यन्ति शलभा इव पावकम् एष श्रियः समुदिताः सर्वराज्ञाम् ग्रहीष्यति वर्षास्विवोदीर्न जला नदीर्नद नदीपतिः एष धारयिता सम्यक् चातुर्वर्ण्यम् महाबलः शुभाशुभमिव स्फीता सर्वसस्य धरा धरा सर्वे भविष्यन्ति नराधिपाः सर्वूतात्मूत वाव एष महादेवं महादेवम् त्रिपुरान्तकरम् हरम् सर्वलोकेष्वति बलः साक्षाद्रक्ष्यति मागधः एवम् ब्रुवन्नेव मुनिः बृहद्रथमथारिहन् प्रविश्य नगरीम् चापि ज्ञातिसम्बन्धिभिर्वृतः अभिषिच्य मगधाधिपतिस्तदा बृहद्रथो नरपतिः पराम् निर्वृतिमाययौ पत्नीगतोवन चव वनस्थे तरी मात्रोच्च विशापते जरासंधस्वी पार्थिवा नकसे वैशंपा उच अध दीर्घस काल्स तपोवन चो नृप सभार्य स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः जरासन्धोऽपि नृपतिर्यथोक्तम् कौसिकेन तत् प्राप्य राज्यमपालयत् निहते वासुदेवेन महीपतौ जातो वै कृष्णेन सह वै भ्रामयित्वा सतगुणमेकोनम् येन भारत गता क्षिप्ता बलवतामागधेन तिष्ठतो मधुरायाम् वै कृष्णस्याद्भुतकर्मणः एको न सापपात गदासुभा दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता गदावसानम् तत्ख्यातम् मथुरायाः समीपतः तस्यास्ताम् हंस मन्त्रे मतिमताम् श्रेष्ठौ नीतिशास्त्रे विशारदौ यौ कथितौ पूर्वमेव महाबलौ याणकाना पर्याप्ता मे मतिम तदा वीर बलि कुक्कुरांधक उश्णिच महाराज नीतिपेक्षिताभारभापर्वि महा राजरभपर्व जरासंध प्रशंसायाकोन विंशति तमोध्या